श्रीहरये नमः अत एको नासीतितमोऽध्यायः श्रीशुक उवाच ततः पर्वणि उपावृत्ते प्रचण्डपांसु सर्वसः ततो मेद्यमयं वर्षम् भल्बलेन विनिर्मितम् अभवत् यज्ञशालायां सोन्वद्दृश्यतशूलदृक् तं विलोक्य बृहत्कायं तप्तसाम्रसिकामश्रं दंष्ट्रोग्रभ्रकुटीमुखं सस्मारमुसलं परसैन्यविधारणं हलं च दैत्यधमनं धेतूर्णम् उपतस्ततुः तमाकृष्य हलाग्रेण बल्बलं गगनेचरम् मुसलेनाघनत्क्रद्धो मूर्निभ्रं मद्रुहं बलः सोपतद्भुवि निर्भिन्नं ललाटोत्सृक् समुत्सृजन् मुञ्जन् आर्तस्वरं शैलो यथावज्रगतोरुणः संस्तुत्यमुनयो रामं प्रयुच्छ्या वितथाशिषः अभ्यक्षिञ्चन् महाभागा वृत्रघ्नं विबुधायत वैजयन्तीं धतुर्मलां श्रीधा माम्लानपङ्गजां रामाय वाससि दिव्ये दिव्यान्याभरणानि च अथ तैः अभ्यनुज्ञात कौशिकीमेत्य ब्राह्मणैः स्नात्वा सरोवरमघात् यतः सरयुराश्रभत् अनुस्रोतेन सरयुं प्रयागमुपगम्यसः स्नात्वा सन्तर्प्य देवा ते जगामपुलः श्रमं गोमातीं कण्डकीं स्नात्वा विपासां शोण आब्लुतः गयां गत्वा पितॄनिष्ट्वा गङ्गासागरसङ्गमे उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च सप्त गोतावरीं वेणां पम्पां भीमरतीं ततः स्कन्धं दृष्ट्वा ययो रामः श्रीशैलं द्रविडेषु महापुण्यं दृष्ट्वा द्रिं प्रभुः कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्वरां श्रीरङ्गाख्यं महापुण्यं यत्र सन्निहितो हरिः वृषभाद्रीं हरे क्षेत्रं दक्षिणां मथुरां तथा सामुद्रं सेतुमगमन् महापातकनाशनं तप्रायुतमदाधेनोर्ब्राह्मणेभ्यो हलायुधः कृतमालां ताम्रपर्णे मलयं च कुलाचलं तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य चा। योजितस्तेन शाशीर्भे अनुज्ञातो गतोऽर्णवं दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सहां तत पञ्चाप्सरसमुद्धमम् विष्णुस्सन्निहितो यत्र स्नात्वा अस्पर्शद्गवायुतं ततो विव्रज भगवान् केरलां स्तु त्रिघर्तकान् गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्झटेहेम् आर्याद्वैपायिनीं दृष्ट्वा शूर्पारकमघलहां तापिं पयोष्णिं निर्विन्ध्याम् उपस्पृश्यात् दण्डकं प्रविश्य रेवामगमत् यमाखीष्मती पुरे मनुतीर्थम् उपस्पृश्य प्रभाषं पुनरागमत् श्रुत्वा द्विजैकत्यमानं कुरु पाण्डवसंयुगे सर्वराजन्यनिधनं भारं भुवः सभीम सभीमधुर्योधनयोर्गदाभ्यां युध्यतोर्मृदे वारयिष्यन्विसनं जगामयधुनन्दनः युधिष्ठिरस्तु तं दृष्ट्वा यमौ कृष्णार्जुनावपि अभिवात्या भवं स्तूणीं किं विवक्षुरिहागतः गदापाणि उभौ दृष्ट्वा सम्प्रब्धौ विजैक्षिणौ मण्डलानि विचित्रानि शरन्तौ इदमब्रवीत् युवां तुल्यबलौ वीरौ हे राजन् हे वृकोधर एकं प्राणादिकं मन्ये उतैकं शिक्षयाधिकं तस्मात् एकतरस्येकयुवयो समवीर्ययोः न लक्ष्यते जयोन्यो वा विरमत्वफलोरणः न तद्वाक्यं जगृहतोर्भक्तवैरौ नृपार्थ अनुस्मरन्तौ अन्योन्यं दुरुक्तं दुष्कृतानि च द्दनुमन्वानो रामो द्वारवतीं ययौ उग्रसेनादिभिः प्रीतैर्ज्ञादिभिः समुपागतः तं पुनर्नैमिषं प्राप्तं ऋषयो याजयन्मुदा कृध्वङ्गं क्रतुभिः सर्वैर्निवृत्ता किल विग्रहं विशुद्धविज्ञानं भगवान् व्यदरद्विभुः येनैवात्मन्यधो विश्वम् आत्मानं विश्वघं विदुः स्वपत्न्या ज्ञातिभन्तु सुहृवृतः रेजे स्वजोत्स्नये भेन्धो सुभासा सुष्ठवलङ्कृतः ईदृग्विधानि असङ्ख्यानि बलस्य बलशालिनः अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हे योनुस्मरेत रामस्य कर्माणि अद्भुतकर्मणः सायं प्रातरनन्तस्य विष्णो सदयितो भवेत् इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्धे दे, बलदेवतीर्थयात्रानिरूपणं नाम एको नासीति दमोऽध्यायः सर्वत्र जीवनस्मरणं। गोविन्द गोविन्द सद्गुरुनाथमहराज के जय